मेधासुक्तम् श्रीगुरुभ्यो नमः हरिः ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधितमस्तु भावद्विचावहैः ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ मेधा देवी जुषमाणान् आगा आद्विष्वाची भद्रा सुमनस्य मानान् त्वया जुष्टानुदमाना दुरुक्तान् बृहद्वदे मविदथे सुवीराह त्वया जुष्टऋषिर्भवति देवी त्वया ब्रह्मागतस्त्रीरुत त्वया आम् त्वया जुष्टश्चित्रं विन्दते वशुसानो जुषस्व द्रविढो न इन्द्रो ददातु वेदां देवी सरस्वती मेधाम् मे अश्विनावभावा धत्ताम् पुष्कराश्चयाम् अप्सरासुचया सुचयां मेधा गन्धर्वे शुचि अन्मनः दैवीं मेधा सुरस्वती सा मा आं मेधासुरभिर्जुसतागं स्वाहा आम् आमा आं मेधासुरभिर्विश्वरूपा हिरण्यवर्णा जगति ऊर्जस्वती पयसा पिन्वमाणा सा मां मेधासु प्रतीकायु सन्ताम् ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ